अथको निंश सर्ग शुक सृष्ट्वा सरयूथ पान लक्ष्मण महवी भुजिण् सीपस्थं रा भ्रातर च विभीषण सुग्रीवी विक्रम् अंगद बलि वज्रहस्ताज हनुमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् सुषेणम् कुमुदम् नीलम् नलम् च प्रवगर्षभम् गजम् गवाक्षम् शरभम् मयीन्दम् च द्विविदम् तथा किञ्चिदाविघ्नहृदयो जातक्रोधश्च रावणः भर्त्सयामासतौ वीरौ कथान्ते शुकसारणौ अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ रोष वाचा संरब्धम् परुषम् तथा न तावत्सदृशम् नाम सचिवैरुपजीविभिः विप्रियम् नृपतेर्वक्तुम् निग्रहे प्रग्रहे प्रभोः रिपूणाम् प्रतिकूलानाम् युद्धार्थमभिवर्तताम् उभाभ्याम् सदृशम् नाम वक्तुमप्रस्तवेस्तवम् आचार्या गुरवो वृद्धा वृथा सारम् यद्राजशास्त्राणामनुजीव्यम् न गृह्यते गृहीतो वा विज्ञातो भारो ज्ञानस्य वाह्यते ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्याधराम्यहम् किम् न मृत्योर्भयम् नास्ति माम् वक्तुम् परुषम् वचः यस्य मेषा जिह्वा प्रयच्छति शुभाशुभम् अप्येव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः राजदण्डपरामृष्टास्तिष्ठन्ते नापराधिनः हन्यामहन्विमौ पापौ शत्रुपक्षप्रशंसिनौ यदि पूर्वोपकारैर्मे क्रोधो न मृदुताम् व्रजेत् अपध्वम् सन्निकर्षादितो मम न हन्तुमिच्छामि स्मराम्युपकृतानि वा हतावेव कृतघ्नौ द्वौ मयि स्नेहपराङ्मुखौ एवमुक्तौ तु सव्रीडौ तौ दृष्ट्वा दु शुकसारणौ रावणम् जय शब्देन प्रतिनन्द्याभिनिःसृतौ अब्रवीच्च दश ततश्चाराः सन्त्वरिताः प्राप्ताः पार्थिवशासनात् उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषः तानब्रवीत्ततो वाक्यम् रावणो राक्षसाधिपः चारान् प्रत्यायिकान् चूरान् धीरान् विगतसाध्वसान् इतोऽगच्छत रामस्य व्यवसायम् परीक्षितुम् मन्त्रेष्वभ्यन्तरायेऽस्य प्रीत्या तेन समागताः कथम् स्वपिति जागर्ति किमद्यचकरिष्यति विज्ञाय निपुणम् सर्वमागन्तव्यमशेषतः चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते चारास्तु ते प्रहृष्टा राक्षसेश्वरम् शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ततस्तन्तुमहात्मानम् चारा राक्षससत्तमम् कृत्वा प्रदक्षिणम् जग्मुर्यत्र रामः स लक्ष्मणः तेषु वेलस्य शैलस्य समीपे रामलक्ष्मणौ प्रच्छन्नादृशुर्गत्वा स सुग्रीव विभीषणौ प्रेक्षमाणाश्च मोम्ताम् च बभूवुर्भयविह्वलाः ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः विभीषणेन तत्र स्थानि गृहीता यदृच्छया शार्दूलोग्राहितस्त्वेकः पापोऽयमिति राक्षसः मोचितः स्वापि रामेण वध्यमानः प्लवङ्गमैः दानुशंस्येन रामेण मोचिता राक्षसाः परे वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः मनुप्राप्ताश्वसंतो नष्टचेतसः ततो दशग्रीवमुपस्थितास्ते चारा बहिर्नित्यचरा निशाचराः गिरे सुबेलस्य समीपवासिनम् न्यवेदयन् महाबलाः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः